एकादशाधिकशततमोऽध्यायः वैशंपायनोवाच न उवाच गुणोपेता धर्मा रामा महाव्रता दुहिता कुन्तिभोजस्य पृथा पृथिरलोचना ताम् तु तेजस्विनीम् कन्याम् रूपयौवनशालिनीम् व्यवृण्वन् पार्थिवाः केचिद् अतीव स्त्रीगुणैर्युताम् ततसारंगमध्यस्थं सारङ्गमध्यस्थम् तेषाम् राज्ञाम् मनस्विनी ददर्श राजशार्तूलम् पाण्डुम् भरतसत्तमम् सिंहदर्पम् महोरस्कम् वृषभाक्षम् महाबलम् आदित्यमिव सर्वेषाम् राज्ञाम् प्रच्छाद्य वै प्रभाः तिष्ठन्तम् राजसमितौ पुरन्दरमिवापरम् तम् दृष्ट्वा सा नवत्याङ्गी कुन्तिभोजसुदाशुभा पाण्डुम् नरवरम् रङ्गे हृदये नाकुलाभवत् ततः कामपरीताङ्गी सकृत्प्रचलमानसा व्रीडमानास्त्रजम् कुन्ती राज्ञम् स्कन्धे समासजत् तम निशम्यवृतम् पाण्डुम् कुन्त्या सर्वे यथागतं राधिपाः यथा गतम् समाजग्मुर्गजैरश्वैरथैस्तथा ततस्तस्याः पिता राजन् विवाहमकरोत्प्रभुः स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः युजेमितसौभाग्यः पौलोम्यामघवानिव कुन्त्याः पाण्डोश्च राजेन्द्र कुन्तिभोजो महीपतिः कृत्वोद्वाहम् ददातम् तु स्वपुरम् प्रेषयामास स राजा कुरु सत्तम ततो बलेन महता नानाध्वजपदापिना स्तूयमानस्य चाशीर्भिर्ब्राह्मणैश्च महर्षिभिः सम्प्राप्य नगरम् राजा पाण्डुः कौरवनन्दनः निवेशयत्ताम् भार्याम् कुन्तीम् स्वभवने प्रभुः इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि कुन्ती विवाहे